हरि ओम् श्रीसीतारामचन्द्राभ्यां नमः अथ श्री, श्री अध्यात्मरामायणे कृष्किन्धाकाण्डे प्रथमसर्गः श्रीमहादेव उवाच ततश्च लक्ष्मणो नाराम शनैः पम्पा सरस्तटम् आगत्य सरसां श्रेष्ठम् दृष्ट्वा विस्मय माययो क्रोशमात्रम् गाध मलशम्बरम् उत्फुल्लाम्बुजकल्लार कुमुद फलमण्डितम् हंसकारण्डवाकीर्णम् चक्रवाकादिशोभितम् जलकुक्कुटकोयष्टि कौञ्चनादोपनादितम् नानापुष्पलताकीर्णम् नानाफलसमावृतम् शताम् पद्मकिञ्जल्क्रवासितम् तत्रोपसृष्ट सलिलम् पिस्ताश्रम हरं विभु सानुजं सरसतीरे शीतलेन पथाय दृश्य मूकगिरे पार्श्वे गच्छन्तु रामलक्ष्मणौ धनुर्बाण करो दान्तु जटावरकरमण्डितौ पश्यन्तु विविधान् वृक्षान् गिरेशोभाविक्रम सुग्रीवस्तु गिध गिरेश चतुर्भवयो तौया तो, तो आरोह गिरेशिव भयाद हनुमत कौतौवीरवरो सखे गी भद्रं ते वटुर्भु द्विजाकृति वालिना प्रेषितौ किं वा समपागतो, हन्तुम् समुपागतौ कृत्वा जानीहि हृदयम् तयो यदि तौ दृष्टहृदयौ संज्ञां कुरु करागृतः विनयावनतो भूत्वा एवं जानीहि निश्चयम् तथेति रूपेण, हनुमान् समुपागतः विनया वनो भूता नेदमब्रवी कुवां पुषव्याघ्रौ युवा दोतय तो दिशर् प्रभया भास्करो भास्करुवां त्रैलोक्यकर्ता भाति मनो मम युवा प्रधान पुष जगधेतो जगन्मय मायया मानुषाकारौ चरन्तु एव लीलया भूभारे हरणार्थाय भक्तानां पालनाय च अवतीर्णौ यपरौ चरन्तु क्षत्रियाकृति जगत्स्थितिलयो सर्गं लीलया कर्तुमुद्यतौ स्वतन्त्र प्रेरको सर्व हृदयस्थ विहेश्वरौ नरनारायणो लोके चरन्तो इति मे मतिः श्रीरामो लक्ष्मणम् प्राहे पश्येनम् वटुरूपिणम् शब्दशास्त्रम् अशेषेण कृतम् नूनम् अनेरे भाषितं भाषितम् कृष्णम् न किञ्चिदपशब्दितम् हनुमन्तं प्राहे हनुमन्तम् राघवो ज्ञानविग्रह अहं दाशृशीराम त्वयम् मे लक्ष्मणोऽनुज सीतया भार्या साधम् पितुर्वचन गौरवात् आगतस्तत्र विपिने स्थितोहं दण्डके द्विज तत्र भार्या ऋता सीता रक्षसा केनचिन्मम तन्मन्वेष्टुं यायातु तं को वा कस्य वा वदे बचोवाच सुग्रीवो नाम राजा यो वानराणाम् महमति चतुर्भि मन्त्रिभी सार्धम् गिरिमूर्धनितिष्ठति ग्राताकनीयान् सुग्रीवो वालिन स्वाप्चेतस तेन निष्कासितो भार्या हृता तस्तेह तद्भया दृश्य मूकाख्यम् अहं सुग्रीव सचिवो वायुपुत्रो महामते हनुमान् नाम विख्यातो व्यञ्जने गर्भ तेन सख्यं त्वया युक्तम् सुग्रीवेण रघुत्तम भार्यापहारणम् हन्तुम् सहाय्यस्ते भविष्यति इदानीम् एव गच्छाम अगच्छ यदि रोचते अहमप्यागतस्तेन सख्यम् कर्तुम् कपीश्वर सख्यस्तरस्यापि यत् कार्यम् तत् करिष्यामि संशयम् हनुमान् स्वस्वरूपेण स्थितो रामम् तथा ब्रवीत् आरोहताम् मम स्कन्धो गच्छाम पर्वतोपरि यत्र तिष्ठति सुग्रीवो मन्त्रिभिर्वालिनोभयत् ति तस्याः स्कन्धम् रामोथ लक्ष्मणः उत्पपात गिरेर्मूर्नि क्षणादेव महकपि वृक्षेच्छायाम् समाश्रित्य स्थितौतो रामलक्ष्मणो हनुमानपि सुग्रीवम् उपगम्य कृताञ्जलि नेतूते भयमायातो राजन् श्रीरामलक्ष्मणो शीघ्रम् मुत्तिष्ठ रामेण सख्यं ते योजितं मया अग्निं साक्षीणमारोग्य आरोप्य तेन सख्यम् द्रुतम् कुरु ततो ति अर्चा सुग्रीव समागम्य रघुत्तमम् वृक्षशाखां स्वयं चित्वा विदो मुदा हनुमान् लक्ष्मणायात् सुग्रीवाय च लक्ष्मणः हर्षेण महता विष्टा सर्वैवावत स्थिरे लक्ष्मणस्त्वब्रवीत् सर्वं रामवृत्तान्तमादितः वनवासाभिगमनम् सीता हरणमेव च लक्ष्मणोक्तम् वच श्रुत्वा सुग्रीवो रामम् अहं करिष्ये राजेन्द्र सीताया परमार्गणम् साहाय्यम् अपि ते राम करिष्ये शत्रुघातिनः शृणुराम मया दृष्टम् किञ्चित् ते कथयाम्यहम् एकदा मन्त्रिभिः सार्धम् स्थितोऽहम् गिरिमूर्धने विहार्यसा नीयमानाम् केनचित् प्रमदोत्तमाम् क्रोशन्तीम् राम रामेति दृष्ट्वास्मान् पर्वतोपरि आ मुचा बरण भामिने। निरीक्षा पर्य क्रोशंती तेन रक्षताह भूषणाननसु गुहाय मक्षिप प्रभम अश्य तम जानी तव वानवी राय दर्शाया तो विमोच्य राम तद्दृष्ट्वा हासीत् इति मुहुमुहुः हृदि निक्षेप्य तत्सर्वम् रुरोद प्राकृतो यथा अश्वस्य राघवम् भ्राता लक्ष्मणो वाक्यमब्रवीत् अचिरेणैव ते मुहु मुहु। राम प्राप्यते जानकी शुभ मानरेन्द्र साहाय्येन हत्वा रावणमाहवे सुग्रीवोऽप्याहये राम रामे करवाणि ते समरे रावणम् हत्वा तव दास्यामि जानकिम् ततो हनुमान् प्रज्वाल्य तयोऽग्निम् समीपैतः तौ भू राम सुग्रीव अग्नौ साक्षिणि तिष्ठति बाहू प्रसार्य चालिङ्ग्य परस्परम् मकल्मषौ समीपे रघुनाथस्य सुग्रीव समुपविशेत् सोदन्तं कथयामास प्रणयाद्रघुनायके सखे शृणो मोदन्तं वालिना यत्कृतं पुरा मय पुत्रोऽ समायावि नाम्ना परमदुर्मदः किन्धां सिंहनादे न महता वाली तू तत् अमर्षणः ज्ञेय क्रोधताम्राक्षो जघानृढमुष्टिना दुद्रावतेन संविघ्नो जगाम स्वगुहां प्रति अनुरुद्रावतं वाली माया विनम्रहं तथा तदप्रवीतमालोक्य गुहां माया विनमृषा वाली मामह तिष्ठ तं बहिर्गच्छाम्यहं गुहाम् इत्युक्त्वा विश्य स गुहाम् न निर्यय मासादुर्धं गुहाद्वारा निर्गतं रुधिरम् बहु तद्दृष्ट्वा परितप्ताङ्गो मृतो वालीति दुःखितः गुहाद्वारि शिलामेकां निधाय गृहमागतः ततो भवम् मृतो वाली गुहायां रक्षसाहतः तच्छ्रुत्वा दुःखिता सर्वे मामनिच्छन्तमुक्त्वा अप्युत राजेभीचेचनं चक्रु सर्वे वा नरमन्त्रिणः श्रेष्ठं तदा मया राजम् किञ्चित् कालम् अरिन्दमय तदस्मागतो बहुधा भर्सय्वाम जान च मुष्टि तसो निर्गत नगरा अधावं पर आ, लोकां सर्वां परिक्रम्य अभियान सर्वान्क्रम्य सूजापया नयाती मम गि प्रभो तदाई मैं भूंते विमूढ़ अथ दुःखेन सन्तप्तो वृतदारो हताश्रयः वसाम्यद्ये भवत्पाद संस्पर्चात् सुखितोऽस्म्यहम् मित्र दुःखेन सन्तप्तो रामो राजीव लोचन हनिष्यामि तव द्वेश्यम् शीघ्रम् भार्यापहारिणम् इति प्रतिज्ञाम् अकरोत् सुग्रीवस्य पुरस्तरः सुगिरी गोप्याः राजेन्द्र वाली बलवताम्बली कथम् हनीष्यति भवान् देवैरपि दुरासनम् शृणोते कथयिष्यामि तद्बलं बलिनामवरे वर कदाचिद् दुन्दुभि नाम दुन्दु महायकायो महाबल किष्किन्धाम्य मद्राम महामयीश्व युद्धाय वालि न समाह्वयत भीषणः तच्छ्रुत्वा स मानसो वाली परमकोपनः महिषं शृङ्गयोर्धृत्वा पातयामास भूतले पादेनैकेन तत्कायम् अक्रम्यास्य शिरो महेत् हस्ताभ्याम् भ्राम यन्सित्वा तोलयित्वा क्षिपद्भुवि पपातय तत् मातङ्गाश्रमसन्निधौ योजना पतितं तस्मात् मुनैराश्रममण्डले रक्तवृष्टिः पपातो दृष्ट्वा तां क्रोधमूर्छितः मातङ्गो वालिनम् प्रा यज्ञागन्तासि मे गतिम् इतः परम् भग्नशिरा मरिष्यसि न संशयः एवं शस्त्र एतद् ज्ञात्वा अहमप्यत्र वसामि भयवर्जितः रामपश्च शिरस्तस्य दुन्दुभे पर्वतोपमम् तत्क्षेपणे यदा शक्त शक्तस्थम् वालिनोऽवधे इत्युक्त्वा दर्शयामास शिरस्तगिरिसन्निभम् कृत्वा पादाङ्गुष्ठेन चक्षिपत् दशयोजनपर्यन्तम् तदद्भूतम् विव भवेत् साधुसा द्विति संप्राह सुग्रीवो मन्त्रिभि सह पुनरप्याः सुग्रीवो रामम् भक्तपरायणम् एते तालमासारा सप्त पश्य रघुत्तम एकैकं चालयित्वा सो निष्पत्रान् कुरुते यथा यदि विद्वाच्छिद्रम् करोषि चेत् हत त्वया तदा बाले विश्वासो मे प्रजायते तथेति धनुरादाय सायकं तत्र सन्दधे बिभेद च तदा राम सप्त तालान् नल तालान् विनिर्भिद्य गिरिम् भूमिम् च सायकः पुनरागत्य रामस्य पूर्ववत्सितः चतुर्थग्रीवो राममाहाति विस्मितः देवत्वं जगतां नाथ परमात्मान संशय मत्पूर्व कृत पुण्योगैः सङ्गतोद्य मया सह साम्भन्ति महात्मान संसार विनिवृत्तये साम्प्राप्य मोक्षसचिवम् प्रार्थयेऽहम् कथम् भवम् पुत्रा धनम् राज्यम् सर्वं तन्मायया कृतम् अतोऽहम् देवदेवे च न काङ्क्षेऽन्यत् प्रसीद मे आनन्दानुभवम् साध्ये यतमानेन निधानं एव सत्पथे अनाद्य विद्या यद् निरदानत प्रकर्म पुर्तेभिरप्यस न जीर्यते पुनर्दा्यम् भजते संस्कृति प्रभ तत्पादर्शनासद्यो नाशमेति न ना संशयः क्षणार्थमपि यच्चित्तम् त्वयि तिष्ठच्च चञ्चलम् तस्याज्ञानमर्थानाम् मूलम् न चति तत् तिष्ठतु मनोराम त्वयिनान्यत्र मे सदा राम रामेति यद्वाणी मधुरम् गायति क्षणम् स सर्वपातकै न काङ्क्षे विजयम् राम न च दार सुखादिकम् भक्तिमेव सदा काङ्क्षे त्वयि बन्ध विमोचनीम् सद्दंशोऽहम् रघुत्तम स्वपादभक्तिमादिश्य त्राही माम् भव सङ्कटात् पूर्वम् मित्रा युदासीना तन्माया वृत्तचेतस आसन्मेद्य भवत्पाद दर्शना देवराघव सर्वम् ब्रह्मैव मे भाति स्वमित्रम् यावत् तन्नायया बद्ध तावद् गुण विशेषता सा यावदस्ति नानाथ तावद् भवति नान्यथा यावन्नाथमज्ञानात् तावत् काल कुटुम्बयम् अथवा विद्यामुपासेय सौन्धे तमसि मज्जसि माया मूलमिदम् सर्वम् पुत्र दारादिबन्धनम् दासीं तव रघुतम तत्पादपद्मार्पितचित्तवृत्ति तन्नाम सङ्गीतकथासुवाणी तद्भक्तसेवा निरतो करो मे तदङ्गसङ्गम् लभताम् मदङ्गम् सन्मूर्ति भक्तान् स्वगुरम् च चक्षु पश्य त्रजस्रम् स शृणोति कर्ण सज्जन्म त्रयत्वजहस्रं तव मन्दिराणि अङ्गानि ते पादरजो विमिश्र तीर्थानि बिभ्र त्व हि चतुर्गेतो हिरस्त्व पद्मजाद्यै पदं रामनमत्वजस्रम् इति श्रीमत् अध्यात्मनामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे प्रथमसर्ग श्रीसीता रामचन्द्रार्पणमस्तु